श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्यां नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः सदाचार वर्णनम् ऋषयवोचो सदाचारं स अवयाशु येन लोकाञ्जयेद्विधये धर्माधर्ममय ब्रूहि स्वर्गनारकदा तथा सुवाच सदाचारयतो विद्वान् ब्राह्मणो नाम नामतः वेदाचारयितो विप्रो गीतैरेकैकवान्द्रियः अल्पाचारोपवेदश्च क्षत्रियो राजसेवकः किञ्चिदाचारवान् वैश्य कृषिवाणिज्य कृतथा क्षुद्रब्राह्मण इत्युक्ते स्वयमेव हि कर्षकः असूयालूपरद्रोही चण्डालद्विज उच्यते पृथिवी पालको राजा इतरे क्षत्रिया मता धान्यादिक्रय वान् वैश्य इतरो वणिगुच्यते ब्रह्मक्षत्रिय वैश्यानां शुश्रुषु शूद्र उच्यते कर्चको वृषलो इतरे चैव दस्यवहे सर्वो ह्यप्राङ्मुखश्च चिन्तयेदेव पूर्वकान् धर्मानर्थाश्च तत्क्लेशान् अयं च व्ययमेव च आयुर्द्वेषश्च मरणम् पापं भाग्यं तथैव च व्याधिपुष्टि तथा शक्ति प्रातरुत्थानदिग्लम् दिशाञ्चयामुषा न्येया या मार्धं सन्धि रोचते तत्काले तु समुत्थाय विन्मूत्रे विसृजे द्विजः गृहात् दूरं ततो गत्वा बाह्यते प्रावृत तथा उदङ्मुख समावेश्य प्रतिबन्धेऽन्यङ्मुखः जलाग्नि ब्राह्मणादीनाम् देवानाम्नाभिमुख्यतः लिङ्गम् पिधाय वामेन मुखमन्येन पाणिना बलमुत्सृज चोत्थाय न पश्ये चैव तन्मलम् उद्धृतेन जलेनैव शौचं कुर्या जलाद्बहि अथवा देवपितृषि तीर्थावतरणं विना सप्त वा पञ्च वा उदम् संशोधयेन्मृदा लिङ्गे कर्कोटमात्रम् तु उदे प्रसृतिरीष्यते तत उत्थाय पद्धस्त शौचम् गण्डूच मस्तकम् येन केन च पत्रेण काष्ठेन च जलाद् बहिः कार्यम् सन्त्यज्य तर्जनीम् दन्तधावन वीरितम् जलदेवान्नमस्कृत्य मन्त्रेण स्नानमाचरेत् अशक्ते कण्ठदघ्नं वा कटिदघ्नम् अथापि वा आजानुजलमासीत्य मन्त्रस्थानं समाचरेत् देवादीं तर्पयेत् विद्वान् तत्र तीर्थजलेन च धौतवस्त्रं धारयेत् उत्तरीयं च किञ्च धार्यं सर्वेषु कर्मसु नद्यादितीर्थस्थाने तु स्नानवस्त्रं न शोधयेत् वापि कूपगृहादौ दौ तु स्नानार्दूर्धं न येद्बुधये शिलाधारवादिके जले वापि स्थले पिब संशोध्य पीडयेद्वस्त्रम् पितॄणां तृप्तये द्विया जाबालकोक्तमन्त्रेण भस्मना च त्रिपुण्ड्रकम् अन्यथा चेज्जले पात ततो नरकमृच्छति आपोहिष्ठेति शिरसि प्रोक्षयेत् पापशान्तये यस्येति मन्त्रम् पादयतु सन्धि प्रोक्षणमुच्यते हृदये मूर्ध्नि पादे च मूर्ध्नि हृत्पाद एव च हृत्पाद मूर्ध्नि संक्षो सम्प्रोक्ष्य मन्त्रस्नानं विदुर्बुधा ईषत्स्पर्शे च दोष्वास्थ्ये राज राष्ट्रभयेऽपि च अगत्यागतिकाले च मन्त्रस्नानं समाचरेत् सा सायम् अग्निनुवाकतः अपपीता तथा मध्ये पुनः प्रोक्षणमाचरेत् गायत्या च मन्त्रान्ते त्रीरूर्ध्वं प्राग् विनिक्षिपेत् मन्त्रेण सह चैकं वै मध्येर्घ्यं तु रवेत्विजा अथ राते स सायान्ने भुवि पश्चिम उद्धृत्य दद्यात्रा तस्तु मध्याह्नेङ्गुलिं नेङ्गुलिभिस्तर अङ्गुलीनां च रन्ध्रेण लम्बम् पश्येत् दिवाकरम् आत्मा प्रदक्षिणम् कृत्वा शुद्धाय च मनमाचरेत् सायम् मूर्ता दर्वा तु कृता सन्ध्या वृथा भवेत् अकालात् काल इत्युक्तो दिनेऽतीते यथा क्रमम् दिवातीते च गायत्रीम् शतम् नित्ये क्रमार्जपेत् अदर्चाः परातीतम् गायत्रीम् लक्ष्यमभ्यसेत् मासातीते तु नित्यै उपनयम् चरेत् ईशो गौरिगुः गोर विष्णु एवंरूपा च वै देवान् तर्पयेदर्थसिद्धये ब्रह्मार्पणम् तथक् कृत्वा शुद्धा च मनमाचरेत् तीर्थे दक्षिणदक्षसे मठे मन्त्रालये बुधे तत्र देवालये वापि गृहे वा नियतस्थले सर्वान् देवान् स्थिरबुद्धि स्थिरासनः प्रणवम् पूर्वमभ्यस्य गायत्रीम् अभ्यसेत् ततः जीव ब्रह्मैक्यविषयम् बुद्ध्वाय प्रणवमभ्यसेत् त्रैलोकिसृष्टिकर्तारम् स्थितिकर्तारमच्युतम् संवर्तारम् तथा रुद्रम् स्वप्रकाशमुपात्महे ज्ञानकर्मेन्द्रियाणां च मनोवृत्तिधिस्तथा भोग मोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत् तदा इत्थमर्थधियाध्यायम् ब्रह्म प्राप्नोति निश्चय केवलं वाजपे नित्यम् ब्राह्मण्यस्य च पूर्तये सहस्रम् अभ्यसे नित्यम् प्रासर्ब्राह्मण पुङ्गवः अन्येषां च यथाशक्ति मध्याह्ने शतं जपेत् सायं द्विदशकं ज्ञेयं शिखाष्टैकसमन्वितं मूलाधानं समारभ्य राजशान्तस्थितां तथा विजेश ब्रह्मविश्वेशे जीवात्मा परमेश्वरन् ब्रह्मबुद्ध्या तदैक्यं चोऽहं भावनया जपेत् तानैव ब्रह्मरन्ध्रहारौ कायाद् बाह्ये च भावयेत् समारभ्य शरीरम् तु ससर्गम् एकैकस्माजपादिकम् एक अतिक्रम्य शनै शनैः परस्मिन् योजय जीवं। जप उदारुतं। उदाहृतम् शतद्विदशकम् देहम् शिखाष्टकसमन्वितम् मन्त्राणाम् जप एवं हि जपमादिक्रमाद्विदु सहस्रं ब्रह्मदं विद्यात् शतमेन्द्रं पदं विदुः इतरस्वान् इतरस्वात्मरक्षार्थं ब्रह्म यो नेषु दायते दिवाकरम् उपस्थाय नित्यं मिथं समाचरे लक्ष्यद्वादशयुक्तः तु पूर्णब्राह्मण ईरितः गायत्र्या लक्षहीनं तु वेदकार्ये न योजयेत् आसप्तते तु नियमम् पश्चात् प्रवराजनं चरेत् सार्द्वादशसहस्रम् प्रव्राजी प्रणवं जपेत् दिने दिने तदिक्रान्ते नित्यमेव क्रमा जपेत् मासाद् क्रमशोति ते सार्धलक्ष्य जपेन्न अतऊर्ध्वम् अतिक्रान्ते पुनः समाचरेत। समाचरेत् एवं कृत्वा दोषशान्ति अन्यथा रौरवं व्रजेत् धर्मार्थयोस्ततो यत्नम् कुर्यात् कामीन चेतरः ब्रह्मणो मुक्तिकामः स्यात् ब्रह्मज्ञानम् च लभ्यसेत् धर्मादर्शोऽर्थतो भावो भोगेन उपजायते। भोगेन उपजायते, विपरीतार्थ धर्मिता वैराग्य मुपजाते विपरीता रागे प्रजाते धर्मच द्विध प्रोक्हदयेन च्रव्यजादी सै तीर्थस्नाद धनेन धनमाती तपसा दिव्यता निष्काम शुद्धिमानोति शुद्ध ज्ञान संचय कृतादी तपश्लाघ्यम द्रव्य धर्म कलो युगे ध्यान ज्ञान सिद्धि रेताया तपसा तथा दजन ज्ञान यज्या, प्रतिमा पूजय कलौ यादृशम पुण्य पापम व सादृशं फलमेवै द्रव्यदेहाङ्गभेदेन नून वृद्धिक्षयाधिकम् अधर्मो हिंसिकारो धर्मस्तु सुखरूपकः अधर्माद् दुःखमाप्नोति धर्माद्वै सुखमेधते विद्या दुर्वृत्तितो दुःखं सुखं विद्या सुवृत्तितः मोक्ष प्रतिधये स कुटुम्बस्य विप्रस्य चतुर्जनयुतस्य च शतवर्षस्य वृत्तिं तु दद्या तद्ब्रह्मलोकदम् चान्द्रायण सहस्रं तु ब्रह्मलोकप्रदं विदुः सहस्रस्य कुटुम्बस्य प्रतिष्ठां चतुर्य चरेत् विद्यात् अयुम ब्रह्म लोकदम यादता दानते नर है तद्लोकमोति वेद विदो विदु अर्थ ही ना कुया तपसाजनम तथा तिस्थाच तपसा प्राप्य सुखम वक्ष्यमश्नुते अर्थर्जन मथो ज्ञायत तु समाहितः कृतात् प्रतीग्राच्चैव याजनाच्च विशुद्धतः अदन्यात् अतिक्लेशात् ब्राह्मणो धनमर्जयेत् क्षत्रियो बाहुवीर्येण कृषिघोरक्षणाद्विषः न्यायार्थवित्तस्य दानात् सिद्धिं समश्मते ज्ञानसिद्ध्या मोक्षसिद्धि सर्वेषां गुर्वन्नुग्रहात् मोक्षास्वरूपसिद्धिः स्यात् परानन्दम् समश्मते सत्सङ्गत् सत्थंगा, सर्वमेतद्वै नराणां दायते द्विजः धनधान्यादिकं सर्वं देयं वै यद्यत्काले वस्तु फलं वा धान्यमेव च तत्तत्सर्वं ब्रह्मणेभ्यो देयं वै हितमिच्छत जलं चैव सदा देयम् अन्नम् क्षुद्व्याधिशान्तये क्षेत्रं धान्यं तथा मान्नम् अन्नमेव चतुर्विधम् यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते तावत् कृतस्य पुण्यस्य र्धं सदर्धन्दा, दातुर्न संशयः गृहीता हि गृहीतस्य दानाद्वैतपसा पापसंशोधनं कुर्यात् अन्यथा रौरवं व्रजेत् आत्मा वित्तं त्रिधा कुर्यात् धर्मवृद्ध्यात्मभोगतः नित्यं नैमितकं काम्यम् कम कर्म क्या धर्मत है विश्व वर्धन कुर्जन ही साधक हितेन मित मेध्यन भोगम भोगत कृष्यर्जिशं पाप से शुद्ध शेषेन कुरियां व्रजेद अथवा पापबुद्धि सै यं वा सत्यमेष्यति वृद्धि वाणिज्यके देयं क्षणं चञ्च विचक्षणे शुद्ध प्रतीग्रहे देयं चतुर्थायम् द्विजोत्तमे अकस्माद्थे देयम् अर्धं द्विजोत्तमे असत्प्रतीग्रहे सर्वं दुर्धानं सागरे क्षिपेत् आहूय कर्तव्यं कर्तव्यम् आत्मभोग समृद्धये पृष्टं सर्वं सदा देयम् आत्मशक्त्यनुसारतः जन्मान्तरे ऋणीः स्यात् अदत्ते पृष्ठवस्तुनि परेषां च तथा दोषम् न प्रशंसेद् विचक्षणः विशेषेण तथा ब्रह्मन् श्रुतं दृष्टं च नो न वदेत् सर्वजन्तूनां हृदि रोष करम् बुधये सन्ध्ययोरग्निकार्यं च कुर्यादैश्वर्य दैश्वर्यसिद्धये। अशक्तस्तेककाले वा सूर्याग्नि च यथाविधि तण्डुलम् धान्यमाद्यं वा फलं कन्दम् हविस्तथाली था। पाकं तथा कुर्यात् यथा यथाविधि प्रधान होम मात्रं वा हव्याभावे समाचरेत् नित्यसन्धानमित्युक्तं समजस्रं विदुर्बुधा अथवा जपमात्रं वा सूर्यवन्दनमेव च एवम् आत्मार्थि न कुर्युः अर्थार्थी च यथाविधि ब्रह्म नित्यं देवपूजाता अग्निपूजा परा नित्यम् गुरुपूजारतथा ब्राह्मणानाम् तृप्तिकरा सर्वे स्वर्गस्य भागिनः इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् सदाचार्य वर्णनम् नाम त्रयोदशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु